हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमदध्यात्मरामायणे युद्धकाण्डे नवमः सर्गः श्रीमहादेव उवाच विभीषणवच श्रुत्वा रामो वाक्यमथा ब्रवीत् जानामितस्य तस्य रुद्रस्य मायां कृष्णां विभीषण सह ब्रह्मास्त्रविच्छूरौ मायावी महाबलः जानामि लक्ष्मणस्यापि स्वरूपम् मम सेवनम् न त्वे वासमहम् तूर्णीम् भविष्यत् कार्यगौरवात् इत्युक्त्वा लक्ष्मणम् प्राह रामो नवताम् वरः गच्छ लक्ष्मणसैन्येन महता जहि रावणीम् हनुमात्प्रमुखै सर्वै यूथपैः सह लक्ष्मण भवान् वृक्षराजोऽयम् स सैन्येन संवृतः विभीषणश्च सचिवै सः त्वाम् अभियास्यति अभिज्ञस्य देशस्य जानाति विवराणि सह रामस्य वचनम् श्रुत्वा लक्ष्मणः स विभीषणः जगराह कार्मुकम् श्रेष्ठम् अन्यद्भीमपराक्रमः रामपादाम्बुजम् स्पृष्ट्वा पृष्ठ सौमित्रिरब्रवीत् अद्य मत्कार्मुकान्मुक्ताः शरानिर्भिद्य रावणीम् गमिष्यन्ती हि पातालम् स्नातुम् भगवती जले एवम् उक्त्वा तु परिक्रम्य प्रणम्यतम् इन्द्रजी निधनाकाङ्क्षी ययो त्व रीतविक्रमः वानरे बहुसा हनुमान् पृच्छतोऽन्वगात् विभीषणश्च सैतो मन्त्रिभिः त्वरितं ययौ जाम्भवत् प्रमुखा वृक्षा सौमित्रीं त्वरयान्वयुः गत्वा निकुम्भिलादेशम् लक्ष्मणो वानरैः सह अपश्यत् बलसंघातम् दूरा द्राक्षसङ्कुलम् धनुरायम्य दनुर... सौमित्री यत्तो भूत् विक्रमह, अंगदेन अङ्गदेन च वीरेण जाम्बवान् द्राक्षसाधिपः तदा विभीषणप्रः सौमित्रीम् पश्य राक्षसान् यदेतत् मेघश्यामं मेघश्यामम् विलोक्यते अस्यानेकस्य महतो भेदने यत्नवान् भव राक्षसेन्द्रः सुतोऽप्यस्मिन् भिन्ने दृश्यो भविष्यति अभिद्रवाशु यावद्वि नैतत् कर्म समाप्यते जहि भीरः दुरात्मानम् निरमधार्मिकम् विभीषणवच श्रुत्वा लक्ष्मणः शुभलक्ष्मणः ववर्च शरवर्षाणि राक्षसेन्द्र सुतम्प्रति पाषाणि पर्वताग्रे वृक्षै च हरियूथपः निर्जघ्नो सर्वतो दैत्यान् तेऽपि वानरयूथपान् परश्व असिभिर्यि रोमरै निर्जघ्नो वानरानेकम् तदा शब्दो महानभू स्वसंप्रहार तुल सञ्जज्ञे हरिरक्षसाम् इन्द्रिये स्वबलम् सर्वम् आर्द्यमानम् विलोक्यस निकुम्भिलाम् च ओमम् च त्यक्त्वा शीघ्रम् विनिर्गतः प्रथम् आरुह्य स धनुः क्रोधेन महतागमयत् समाह्वयन् सौमित्रीम् युद्धाय रणमूर्धनि सौमित्रे मेघनादोहम् मया जीवन्न मोक्ष्यसे तत्र दृष्ट्वा निष्ठुरभाषणम् इहैव दातः संवृद्ध साक्षाद्भातापि धर्मम् यस्त्वम् सजनमुत्सृज्य परभृत्य त्वमागतः कथम् द्रोह्यति पुत्राय पापीया नसि दुर्मतिः इत्युक्त्वा लक्ष्मणम् दृष्ट्वा हनुमत्पृष्ठदस्थितम् उद्यदायूधनिस्त्रिंशे प्रसेमहति संस्थितः महाप्रमाणामुद्यम्य घोरम् विस्फारयन् धनुः अद्य वो मामका बाणा प्राणान् पास्यन्ति वानरः तथश्चरम् दाशरथि सन्धाय मित्रकर्षणः स राक्षसेंद्राय। राक्षसेन्द्राय क्रुद्ध सर्पै वश्वसन् इन्द्रजीद्रक्तनयनो लक्ष्मणम् समुदैक्षत शक्राशनि समस्पर्शै लक्ष्मणेनाहतः शरैः मुहूर्तम् अभवद् मूढ पुनः प्रत्यारुतेन्द्रिय ददर्शोऽस्थितम् वीरम् वीरोदशरथात्मजम् सोऽभिचक्राम सोमित्रिम् क्रोधसंरक्तलोचनः शरान्धनुषिः सन्धाय लक्ष्मणम् चेदमब्रवीत् यदि ते प्रथमे युद्धे न अद्य त्वाम् दर्शयिष्यामि तीक्थे इदानीम् व्यवस्थितः इत्युक्त्वा सप्तभिः बाणैः अभिव्याधलक्ष्मणम् दशभिश्च हनुमन्तम् तीक्ष्णधारैः शरोत्तमे तदश रशतेनैव सम्प्रयुक्तेन वीर्यवान् क्रोध द्विगुणसंरब्धो निर्विभेद विभीषणम् लक्ष्मणोऽपि तथा शत्रु चरवर्षे शर्वर्षैरवाकिरेत् तस्य वाणिसु संविद्धम् कवचं काञ्चन प्रभम् विशीर्यत रथोपस्थे तिलश पतितम्भुवि ततः शरस्रेण संक्रुद्धो रावणात्मजः विभेद समरे वीरम् लक्ष्मणम् भीमविक्रमम् विशीर्यतापत् तद्दिव्यम् कवचम् लक्ष्मणस्य च कुतान्योन्यम् बभूवतोरभिधृतौ अभी अभीक्ष्णं, अभीक्ष्णं निष्वसन्तोतौ युद्ध्येतां तु मलः पुनः शरसम्भूत सर्वाङ्गौ सर्वतो हृदितौ सुदीर्घकालं तौ वीरौ अन्योन्यं निशतैश रे युध्येतां तु महासत्वौ जय जय विवर्जितौ एतस्मिन् अन्तरे वीरो लक्ष्मणः पञ्च भीषरैः रावणे सारथिं शाश्वम् रथञ्च समचूर्णयत्ेद कार्मुकम् तस्य दर्शयन् हस्तलाघवम् सोऽन्यत्तु कार्मुकं भज्रम् सद्यं चक्रे त्वारान्वितः तच्चापम् अपि चिच्छेद लक्ष्मण त्रिभिराशुगै तमेव छिन्न धन्वानम् विव्याधानेकसायकै पुनैरन्य समादाय कार्मुकम् भीम विक्रमः इन्द्रजीत् लक्ष्मणम् बाणै शितै आदित्यसन्निभै बिभेदे वानरान् सर्वान् बाणेरा पूरयन् दिशः तत इन्द्रम् समादाय लक्ष्मणो रावणिम् प्रति सन्धाय कृष्य कार्मुकम् दृढनिष्ठुरम् उवाच लक्ष्मणो वीर स्मरन् राम पदाम्बुजम् धर्मात्मा सत्यसन्ध च रामोदाशरतिर्यधि त्रिलोक्यामप्रतिद्वन्द् तदेनम् जहि रावणिम् इत्युक्त्वा बाणमाकरणात् विकृष्य तम जिम्भगम् लक्ष्मण समरे वीर ससर्गेन्द्रजितम् प्रति स शर स शिरस्त्राणम् श्रीमद्गलितकुण्डलम् परमथ्येन्द्रजितकायात् पातयामास भूतले ततः देवा कीर्तयन्तो रघुत्तमम् ववर्षु पुष्पवर्षाणि स्तुवन्तश्च मुहुर्मुहुः जहर्ष चक्रो भगवान् सह देवै महर्षिभिः आकाशेऽपि च देवानाम् शुश्रुवेदुन्दुभि त्वनः विमलम् गगनम् चासीत् स्थिरा भूद्विश्वधारिणी निहतं रामणीं दृष्ट्वा जय जल्पः समन्वितः गतश्रम संसौमित्री शङ्कमापूर्य ऋणे सिंहनादं तत् कृत्वा या तेन नादेन संवृष्टा वानराश्च गतश्रमः वानरेन्द्रैष सहित सुवद्भीरुष्टव मानसै लक्ष्मण परितुष्टात्मा दर्शाभ्येत्य राघवम् हनुभद्राक्षसाभ्याम् च सहितो विनयान्वितः भवे भ्रातरम् रामम् ज्येष्ठम् नारायणम् विभुम् तत, तत्प्रसादाद् रघुश्रेष्ठ कतो श्रुत्वा तल्लक्षणभक्त्या समालिङ्ग्य रघुत्तमः मूर्ध्यवघ्राय मुदितः स्वस्नेहम् इदमब्रवीत् साधो लक्ष्मणतुष्टोऽस्मि कर्म ते दुष्करम् कृतम् मेघनादस्य निधने जितम् सर्वम् मरिन्दम अहोरात्रे त्रिभिर्वीर कथञ्चिद् विनिपातितः निस्तपस्म कृतोस्मद्य निर्यास्यति हि रावणः पुत्रशोकान् मया योद्धुम् तम् हनीष्यामि रावणम् मेघनादम् हतं श्रुत्वा लक्ष्मणेन महाबलम् श्रावणपतितो भूमौ मूर्छितः पुनरुत्थितः विरलापाति पुत्रशोकेन रावणः पुत्रस्य गुणकर्माणि संस्मरन् पर्येवैः अद्य देवगणा सर्वे लोकपालामाचय हतम् इन्द्रः जितम् ज्ञात्वा सुखम् श्वस्यन्ति इत्यादि बहुश पुत्र लालसो विललापः ततः परम संवृद्धो रावणो राक्षसाधिपः उवाच राक्षसान् सर्वान् निनाशाीशुराश राहवे स पुत्र वध चूरे क्रोधवशम् गतः संवीक्ष्य रावणो बुद्ध्या हन्तुम् सीताम् पृदुध्रुवे कर्गपाणे मथा यान्तम् क्रुद्धम् दृष्ट्वा दशाननम् राक्षसी मध्यगासीता भयशोकाय कुला भवेत, एतस्मिन् अन्तरे तस्य सचिवो बुद्धिमान् शुचिः सुपार्श्वो नाम मेधावि रावणम् वाक्यमब्रवीत् ननु ना महदशग्रीव साक्षात् वैश्रवणानुजः वेदविद्यावदस्नात् स्वकर्म परिनिष्ठितः अनेकगुणसम्पन्न कथम् श्रीवधमिच्छसि अस्माभिः सहितो युद्धे हत्वा रामम् च लक्ष्मणम् लक्ष्मणम् प्राप्स्यसे जान किम् शीघ्रम् इत्युक्तः न्यवर्तते ततो दूरात्मा सुहृदा निवेदितं वच सुधर्म्यं पतिगुरु ह्य रावण गृहम् जगामाशुशुचाविमूढधि पुनः सभां च त्वदेव सुहृदृत इत्यादयन् अध्यात्मरामायणे उमामिश्रसंवादे युद्धकाण्डे नवमः सर्ग श्रीसीतारामचन्द्रार्पणमस्तु